अथ पञ्चविंशः सर्गः सा विनीयतमायासमुपस्पृश्य जलम् शुचि चकार माता रामस्य मङ्गलानि मनस्विनी न शक्य सेवारयितुम् गच्छेदानीम् रघूत्तमा शीघ्रम् च क्रमे यम् या। या। पालयसि धर्मम् त्वम् च नियमेन च स वैराघवशार्दूलधर्मस्त्वामभिरक्षतु ये प्रणमसे ते चे चम्त वने सह महर्षि यानी दत्ता विश्वामीमताक्ष गुण सुदित सदा पिताशुश्रूषया पुत्र मतृशुश्रूषया तथा सत्येन च महाबाहो चिरम् जीवाभिरक्षितः समित्कुशप वित्राणि वेद्यश्चायतनानि च स्थण्डिलानि च विप्राणाम् शैला वृक्षाः क्षुपाह्रदाः रक्षन्तु नरोत्तमा स्वस्ति साध्याश्च विश्वे च च स्वस्ति, स्वस्ति पूषा लोकपालाश्च ते सर्वे मासवप्रमुखास्तथा रतवश्यच्च ते सर्वे मासाः संवत्सराः क्षपाः दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा श्रुतिस्मृतिश्च धर्मश्च पातु त्वाम् पुत्र सर्वतः स्कन्दश्च भगवान् देवः सोमश्च स बृहस्पतिः सप्तर्षयो नारदश्च ते त्वाम् रक्षन्तु सर्वतः ते चापि सर्वतः सिद्धा दिशश्च सरिगीश्वराः स्तुता मया वनेतस्मिन् पान्तु त्वाम् सर्वे समुद्राश्च राजा वरुण एव च यौरन्तरिक्षम् पृथिवी वायुश्च सचराचरः नक्षत्राणि च सर्वाणि ग्रहाश्च सहदैवतैः अहोरात्रे तथा संध्ये पान्तु वनमाश्रितम् ऋतवश्चापि षट्चान्ये मासाः संवत्सरास्तथा कलाश्च काष्ठाश्च तथा तव शर्म दिशम् तु ते महाबलेऽपि चरतो मुनिवेषस्य धीमतः तथा देवाश्च दैत्याश्च भवन्तु सुखदाः सदा राक्षसानाम् पिशाचानाम् रौद्राणाम् क्रूरकर्मणा क्रव्यादानाम् च सर्वेषाम् मा भयम् प्लवगा वृश्चिकादंशामशकाश्चैव कानने सरीधृपाश्च कीटाश्च मा भूवन् गहने तव महाद्वीपाश्च सिंहाश्च व्याघ्रावृक्षाश्च पुत्रका नृमांसभोजना आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः सर्वसम्पत्तयो रामः स्वस्ति माम् गच्छ पुत्रक स्वस्ति ते स्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः शुक्रः धनदोथयमस्तथा पान्तु त्वामर्चिता अग्निर्वायुस्तूमो मंत्रि मुखच्युता उपस्पर्शन काले तो पा रघुनंदना सर्वोक प्रभुर्ब्र भूतकर्तृतथर्षय ये शेषास्ते रक्ष वनवासीन माल्यु रगणंधार यशस्वनी स्तुतिरनर्चातलोचना ज्वलनम् समुपादाय ब्राह्मणेन महात्मना हावयामास विधिना राममङ्गलकारणात् घृतम् श्वेतानि माल्यानि समिधश्चैव सर्षपान् उपसम्पादयामास कौसल्या परमाङ्गना उपाध्यायस्य विधिना हुत्वा शान्तिमनामयम् हुतः हव्यावशेषेण बाह्यम् मधुरध्यक्षतघृतै स्वस्ति वाच्यम् द्विजांस्ततः वाचयामास रामस्य वने स्वस्थ्ययन क्रियाम् ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी दक्षिणाम् प्रददौ काम्याम् राघवम् चेदमब्रवीत् यन्मङ्गलम् सहस्राक्षे सर्वदेव नमस्कृते वृत्रनाशे समभवत् तत्ते भवतु मङ्गलम् यन्मङ्गलम् स्वपर्णस्य विनता कल्पयत् पुरा अमृतम् प्रार्थयानस्य तत्ते भवतु मङ्गलम् अमृतोत्पादने दैत्यान्घ्रतो वज्रधरस्य यत् अदितिर्मङ्गलम् प्रादात् तत्ते भवतु मङ्गलम् त्रीन् विक्रमान् प्रक्रमतो विष्णो रमिततेजसः यदासीन्मङ्गलम् राम तत्ते भवतु मङ्गलम् ऋषयः सागरा द्वीपा वेदालोकादिशश्च ते मङ्गलानि महाबाहो दिशन्तु च शुभा चकाररक्षाम् उवाच विप्रहृष्टेव सा दुःखवशवर्तिनी वाङ्मात्रेण न भावेन वाचा संसज्जमानया आनम्यमूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी अवदत्पुत्रमिष्टार्थो गच्छ राम यथा सुखम् अरोगम् सर्वसिद्धार्थमयोध्याम् पुनरागतम् पश्यामि प्रणष्टदुःखसङ्कल्पा हर्षविद्योतिता नना द्रक्ष्यामि त्वाम् वनात्प्राप्तम् पूर्णचन्द्रमिवोदितम् भद्रासनगतम् रामवनवासादिहागतम् द्रक्ष्यामि च पुनस्त्वान्तु तीर्णवन्तम् पितुर्वचः मङ्गलैरुपसम्पन्नो वनवासादिहागतः वध्वाश्च मम कामान् संवर्धया मया अर्चिता शिवादयो महर्षयो भूतगणाः सुरोरगाः अभिप्रयातस्य वनम् चिरायते हितानि काङ्क्षन्तु दिशश्च राघवा अतीव चाश्व प्रतिपूर्ण च स्वस्ति यथाविधि प्रदक्षिणम् चापि चकार राघवं पुनः पुनश्चापि निरीक्ष्य स स्वजे तयाहि हि देव्या च कृत प्रदक्षिणो निपीड्यमातुश्चरणौ पुनः पुनः जगामसीतानिलयम् महायशा सरागवः प्रज्वलितस्तया श्रिया इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चविंशः